श्रीहरये नमः अत एकोनत्रिंशोऽध्यायः उद्धव उवाच सुदुश्चरामि मां मन्ये योगचर्यामनात्मनः यदा जसा पुमान् सिद्धयेत् तन्मे ब्रूह्यञ्जसा अच्युत प्रयासः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः विक्षीतन्त्यसमाधानान् मनो निग्रहकर्षिताः अतात आनन्ददुःखम् पदाम्बुजं हंसा चयेरन् अरविन्दलोचना सुखं नु विश्वेश्वरयोगकर्मभिः त्वन् मायामि विगता न मानिनः किञ्चित्रमच्युत अशेषबन्धो दासेष्वनन्यसरणेषु यदात्मसात्वं यो रोचयत् सखमृगैः ईश्वराणाम् श्रीमत्किरीटतडपीठितपादपीठः तं त्वाकिलात्मदयितेश्वरमाश्रितानां सर्वार्थधं स्वकृतवित् विश्रुजेत को नु को वा, वा, वा, वा पाद रजो जुषाम्नः नैवोपयन्त्यपशितं कवयस्तवेष ब्रह्मायुषापि कृतरुद्धमुदस्मरन्तः योऽन्तर्बहिस्तनुप्रथामशुभं विथुन्वन् आचार्य चैत्यवपुषा स्वगतिं व्यनक्थीं यद्युत्तवेन अत्यनुरक्तचेदसा पृष्ठो जगत नगः स्वशक्तिभिः गृहीतमूर्तित्रयईश्वरेश्वरो जगात स प्रेम मनोहरस्मितः श्रीभगवानुवाच हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् या शरत्तया चरन्मर्त्यो मृत्युं जयति दुर्जयं कुर्यात्सर्वाणि कर्माणि मदर्थं सनकैः स्मरन् मय्यर्पितमनश्चित्तो मद्धर्मात्मनोरतिः देशान् पुण्यानाश्रयेत् मद्भक्तैः साधुभिश्रुतान् देवासुरमनुष्येषु मद्भक्ताचरितानि च पृथक् क्षत्रेण वा मह्यं कारयेद्गीतनृत्याद्यैर्महाराजविभूतिभिः मामेव सर्वभूतेषो बहिरन्तरपावृतम् ईषेदात्मनि चात्मानं यथा कम् अमलासयः इति सर्वाणि भूतानि मद्भावे महाद्युते सभाजयन्मन्यमानो ज्ञानं केवलमाश्रितः ब्राह्मणे पुल्कसेस्तेने ब्रह्मण्येऽर्के अक्रूरे क्रूरकेशैव समदृक्पण्डितो मतः नरेष्वभीष्णमद्भावं पुंसो भावयथो चिरात् स्पर्धासूया तिरस्कार साहङ्काराभियन्तिः विसृज्य स्मयमानात् स्वान् दृशं व्रीढां च तैः किं यावत् सर्वेषु भूतेषु मद्भावो नोपजायते तावदेवं उपासीत वाङ्मनकाय वृद्धिभिः सर्वं ब्रह्मात्मकं तस्य विद्ययात्ममनीषया परिपश्यन् उपरमेत् सर्वतोमुक्तसंशयः अयं हि सर्वकल्पानां शद्रीचीनो मतो मम मद्भाव सर्वभूतेशो मनोवाक्काय वृद्धिभिः न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धव अण् मया व्यवसितः सम्यग् निर्गुणत्वात् अनाशिषः यो यो मयि परे धर्म कल्प्यते एषा बुद्धिमतां बुद्धेर्मनीषा च मनीषिणा यत्सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतं एष ते विहित कृत्स्नो ब्रह्मबाधस्य शङ्ग्रगः देवानामपि दुर्गमः अभीक्ष्णस्सस्ते गतितं ज्ञानं विस्पष्टयुक्तिमत् एतत् विज्ञायमुच्येत पुरुषो नष्टसंशयः सुविविक्तं तव प्रश्नं मयैतदभिधारयेत् सनातनं ब्रह्म गुह्यं परं ब्रह्माति गच्छति यये तन्मम भक्तेषु सम्प्रदत्तात् तस्याहं ब्रह्मदायस्य ददामि आत्मानमात्मना यतत्समदीयेत पवित्रं परमं शुचि स भूयेताहरहर्म ज्ञानदीपेन दर्शयन् ययेतत् श्रद्धया नित्यम् अव्यग्रक्षृणुयान्तरः मयि भक्तिं परां कुर्वन् कर्मभिर्न स अभ्युद्धव त्वया ब्रह्म सखे समवधारितम् अपि ते विगतो मोह सोऽहश्चासौ मनोभवः नैतद्वयाधाम्बिकाय नास्तिकाय शटाय च दुर्विनीताय दीयता एतेर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च साधवे सूचये ब्रूयात् भक्तिश्चात् शूद्रयोषितां नैतत् विज्ञाय जिज्ञासोर् ज्ञातव्यम् अवशिष्यते पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे यावानर्थो नृणां तावां स्तेहं चतुर्विदः मर्त्यो यथा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे तथामृतत्वं प्रतिपत्यमानो मयात्मभूयाय स कल्पते वै आदर्शितयोगमार्ग तथोत्तमश्लोकवचो निशम्य बद्धाञ्जलिः प्रीत्युपरुद्धघण्टो न किञ्चिदूषेश्रु परिप्लुताक्षः विष्टव्यचित्तं प्रणयावनार्णं धैर्येण राजन् बहु मन्यमानः कृताञ्जलि प्राकयदुब्रवीरं शीर्ष्णास्पृशंस्तश्चरणारविन्दम् उद्धवो विद्रावितोमोहमहान्तकारो य आर्सितो मे तव सन्निधानात् विभावसो किं नु समीपघस्य सीतं तमोभिः प्रभवन्त्यजाद्यं प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः हित्वा कृतज्ञस्तव पादमूलम् कोऽन्यत्समीयाचरणं त्वदीयं वृत्नश्च मे शुदृढस्नेहभाशो दासार्घवृण्यन्धसात्वतेषो प्रसारितसृष्टिविवृद्धये त्वया स्वमायया ह्यात्म सुभोतहेतिनां नमोऽस्तु ते महायोगिन् प्रपन्नम् अनुसाति मां भोजे रतिश्याधनपायिनी श्रीभगवानुवाच कच्छोद्धवमयाधिष्ठो भदर्याख्यं ममाश्रमं तत्र मद्भाततीर्थोदे स्नानोपस्पर्चनैः शु शुशिः ईशया अलकनन्दाय विधूताशेषकल्मषः वसानो वल्कलान्यङ्ग वन्यभुक्सुखनिःस्पृहः तितिक्षुर्द्वन्द्वमात्राणां सुशीलस्संयतेन्द्रियः शान्तस्समाहि दधिया ज्ञानविज्ञानसंयुतः मत्तोऽनुशिशितं यत् ते विविक्तमनुभावयन् मय्या वेसितवाक्चित्तो मद्धर्मनिरतो भव अतिव्रजगति स्तिस्रो मामेष्यसि ततः श्रीशुक उवाच स एव मुक्तो हरिमेधशोद्धव प्रदक्षिणं तं परिश्रुत्य पादयोः शिरोनिदाया शुकलाभिराद्रती न्यक्षिञ्चतः द्वन्द्वपरोप्यपक्रमे सुदुस्त्ययस्नेकभियोककातरो न शक्नुवंस्तं परिहातु मातुरका कृश्रं ययौ मूर्धनि भर्दृभातुके भिप्र नमस्कृत्य ययौ पुनः पुनः ततस्तम् अन्तर्हृतिसन्निवेश्य गतो मखाभागवतो विशालां यतोपतिष्ठां जगदे गभन्तुना तपःसमास्ताय हरेरगाद्गतिं ययेततानन्दसमुद्दसम्प्रतं ज्ञानामृतं भागवताय भाषितं कृष्णेन योगेश्वर सेविधाङ्ग्रिणा च भव भपघन्तु विज्ञानसारम् निगमग्रुतु भजक्रे भृङ्गवद्वेदसारम् अमृतमुत तितश्चापयाय प्रत्यवर्घान् पुरुषं वृषभमाद्यं कृष्ण संज्ञम् नतोऽस्मि इति श्रीमद्भागवते महापुराणे एकादश स्कन्ते एको न त्रं शोध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुम्नाथमहराज की जै